श्रीमन महाभारतं कुंती महाभारत आदिपर्व बकवधपर्व कुी युधिष्ठि वैशंपायन शतमो अध्याय इति भीमेन कीमेन प्रतिथारत आजग्मस्ते तत भैक्ष पांडवा आकारेण्वि ज्ञावा पांडुपुत्रो युधिष्ठि रुप्य प्छमा युधिष्ठिर उवाच किञ्चिकीर्षत्ययम् कर्म भीमो भीम पराक्रमः भवत्यनुमते कच्चित् स्वयम् वा कर्तुमिच्छति कुन्त्युवाच ममैव वचनादेश करिष्यति परन्तपः ब्राह्मणार्थे महत्कृत्यम् मोक्षाय नगरस्य च युधिष्ठिर उवाच किमिदम् साहसम् तीक्ष्णम् भवत्या दुष्करम् कृतम् परित्यागम् हि पुत्रस्य न प्रशंसन्ति साधवः कथम् परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि लोकवेदविरुद्धम् हि पुत्रत्यागात् कृतम् त्वया यस्य बाहूसमाश्रित्य सुखम् सर्वे शयामहे राज्यम् चापहृतम् क्षुद्रैराजिहीर्षामहे पुनः यस्य दुर्योधनो वीर्यम् चिन्तयन्नमितौ न शेते रजनि सर्वा यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद् वयम् अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः यस्य वीर्यम् समाश्रित्य वसुपूर्णाम् वसुन्धराम् इमाम् मन्यामहे प्राप्ताम् निहत्य धृतराष्ट्रजान् तस्य व्यवसितस्यागो बुद्धिमास्थाय त्वया च्चिन्नु दुःखैर्बुद्धिस्ते विलुप्तागतचेतसः कुन्त्युवाच युधिष्ठिर न सन्तापस्त्वया कार्यो वृतोदरे न चायम् बुद्धिदौर्बल्यात् व्यवसायः कृतो मया इह विप्रस्य भवने वयम् पुत्रसुखोषिताः अज्ञाताधार्तराष्ट्राणाम् सत्कृता वीतमन्यवः तस्य प्रतिक्रियापार्थमयेयं प्रसमीक्षिता एतावानेव वा पुरुषः कृतं यस्मिन्न नश्यति यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः दृष्ट्वा भीमस्य विक्रांतं तदा जतुगृहे महत। हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे बाह्वोर्बलम् हि भीमस्य नागायुतसमम् महत् येन यूयम् गजप्रख्या निर्व्यूढा वारणावतात् वृकोदरेण सदृशो बले विद्यते योऽभ्युदीयाद्युधि युधिश्रेष्ठमपि वज्रधर्म स्वयं जातमात्र पुरा चैव ममाङ्कात् शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता तदहं प्रज्ञयाज्ञात्वा ज्ञात्वा बलम् भीमस्य पाण्डव प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम् नेदम् लोभान्न चाज्ञानान्न च चा मोहाद् विनिश्चितम् बुद्धिपूर्वम् तु धर्मस्य व्यवसाय कृतो